श्रीमद्भागवत् महापुराणं पञ्चं स्कन्ध अथ चतुर्थोऽध्यायः ऋषभदेवजीकाराज्यशासन् शेषोकुमाच अथ तमोन्पद्यैवाभि व्यज्यपालभगवल्लक्षणं शाम्योपसमवैराग्यैश्वर्यमहाविभूतेभिरनुदिनम् मेधमानानुभावं प्रकृतय प्रजा ब्राह्मणा देवतास्यावनीतरसमुं तमुवनायातितरां जगृतो तस्य ह वा इत्थं वर्ष्मणा बलीयसा बृहत्सलोकेन चोजसां बलेन शियायशसा च पितारि नृतं नाम चकार तस्य हीन्द्र स्पर्धमानो भगवान् वर्षे नववर्ष तदवधार्य भगवान् शुभदेवो योगेश्वरप्रहस्यात्मयोगमायया स्ववर्षं मजनाभं नामाभ्यवर्षत नाभिस्तो यथं यथाभिलषितं सुपृजस्त्वम् अवरुध्याति प्रमोदभरविह्वलो गदगदाक्षरया गिरा शैरं गृहीतनर्लोकसमरसधर्म भगवन्तं पुराणपुरुषं माया विलसितम् अतिर्वत्स ता तेतिसानुरागमुपलालयन् परां नृतिमुपगतः दीयतानुरागमापौरप्रकृति जनपतो राजानाभिरात्मजं समयसेतुरक्षायाम् अभिसिञ्च ब्राह्मणे सों ब्राह्मणेषु उपनिधाय सः मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन निरनारायणाख्यं भगवन्तं वासुदेवमुपासेन कालेन तन्महिमानमवाप यस्य ह पाण्डवेय श्लोकावुदाहरन्ति को नु तत्कर्मराजर्षेन्नाभेरन्माचरेत् पुमान् अपत्यताम् अवाद्यस्य हरिसिद्धेन कर्मणा ब्रह्मण्योऽन्यकुतो नाभिर्विप्रा मङ्गलपूजिताः यस्य बर्हिषि यज्ञेशं दर्शयामास रोजसा अतः भगवान् शुभदेव स्वर्षं कर्मक्षेत्रमनो मन्यमानः प्रदर्शितगुरुकुलवासो लब्धवयं वरे गुरुभिरनुज्ञातो गृहमेधिनां धर्मानुधर्माननु शिक्षमालोजयन्त्यामिन्द्रं दत्तायामुभयं दक्षणं कर्म साम्नायां नातमभियुज्यन्नात्मजानाम् आत्मसमानानां ततं जनयामास येषां खलु महायोगी भरतो ज्येष्ठ श्रेष्ठगुण आसीद्येनेतं वर्षं भारतमिति तवनो तमनोकुशाव्रत इलावरतो ब्रह्मावरतो मलयः क्रेतुभद्रसेन यन्द्रस्प्रीं व्रीं दर्भः कीकट इति नवनवति प्रधानाः कविर्हरिरन्तरक्ष प्रबुद्ध पिप्पलायनम् आविर्होत्रोऽथ द्रुमिल चमसकरभाजिनः यतिभागवतधर्मदर्शनार् नवमहाभागवतात् तेषां सुचरितं भगवन्महिमोपविहितं वसुदेव नारदं संवादमुपं समाया नमो वरिष्टाद नरणेषिष्यामः यवीयांस एकाशीति जायन्ते यापितुरादेशकरा महाशालिना महाश्रोत्रिया यज्ञशीला कर्मविशुद्धा ब्राह्मणा बभूवुः भगवान् नृसभं संज्ञ आत्मतन्त्र स्वयं नित्यनिवृत्तानर्थ परम्पर केवलानन्दानुभव ईश्वर एव विपरीतवद्गन् कर्माणाम् परमाण्यारभमाणकालेनानुगतं धर्ममाचरं चरणेनोपशिक्षयन् तद्विधां समुपशान्तो मैत्रकारुणिको धर्मार्थयस प्रजानन्दामृतावरोधेन गृहेषु लोकं सन्याचरितं यद्य्याचरितं वर्तते श्लोकः यद्यपि सविदितं सकलधर्मं ब्रां बाहिं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरूपायै जनतामनुशशाच द्रव्यदेशकालवय सद्धत्ये द्वीं विधोद्देशोपचितैः सर्वैरपि कृतुभिर्यथोपदेशं सत्कृद्वा इयाज भगवतर्सेण परिरक्षमाण एतस्मिन् वर्षेण कश्चन पुरुषो वाञ्छत्य विद्यमानमिवात्मनोऽन्यस्माकथञ्चन किमपि कर्हि चिद्विवेक्षते भरतर्यशवनं विदृम्भितस्नेहातिशयं मन्तरेण स कदाचिदटं मानो भगवान् ऋषभो ब्रह्मावर्तगतो ब्रह्मऋषिपरवरसभायां प्रजानाम् निसामयन्तीनाम् आत्मजानां वहितात्मनः प्रत्ययप्रणय नरसुयन्ति तानप्योपशिक्षयन्नि ते होवाच इति श्रीमद्भागवते महापुराणे प्रपञ्चां शयितायां पञ्चमस्कन्धे चतुर्थोऽध्यायः